प्रधानमन्त्री सम्प्रति वार्ता श्रता प्रवाचिका साधना शर्मा इदानीं मुख्या वार्ता अद्य प्रधानमन्त्री श्रीनरेन्द्रमोदी नवदिल्ल्याम् अखिलभारतीय आयुर्विज्ञान चिकित्सा संस्थाने राष्ट्रियवृद्धावस्था केन्द्रस्य शिलान्यासं करिष्यति अपि च स्वनिवासे इक्षुदण्डस्य साधैंककृषकाणां मंद... शिष्टमण्डलेन वार्तां व्याहरिष्यति तोमर केन्द्रीयग्रामीण विकासमन्त्री नरेन्द्रसिंह तोमर अवदत् यत् प्राशासनिक योजना समयबद्धरीत्या प्रवर्तयेत गडकरी केन्द्रीयमन्त्री नितिनगडकरी अवदत् यत् राजमार्गक्षेत्रं भारतीय अधिकोषपतिभ्य बहूनाम् अवसराणाम् उपलब्धिं कारयति तै अवसरै उपयोगं कुर्यात् प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य नवदिल्ल्याम् अखिलभारतीय आयुर्विज्ञान चिकित्सा संस्थाने राष्ट्रियवृद्धावस्था केन्द्रस्य शिलान्यासं करिष्यति इदं वरिष्ठान नागरिकान् विशिष्टचिकित्सा सौविध्यं प्रदास्यति अस्मिन् द्विशतं शय्या भवितार एकस्य प्राशासनिक विज्ञप्त्यां विज्ञापितं यत् प्रधानमन्त्री सफदरजंग अस्पताले पञ्चपञ्चाशदधिक पञ्चशत शय्यानां विशिष्टचिकित्सा सुविधानां उद्घाटनं करिष्यति प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वनिवासे इक्षुदण्डस्य साधैंक शत कृषकाणां शिष्टमण्डलेन वार्तां व्याहरिष्यति प्राशासनिक विज्ञप्त्याम् उल्लिखितं यत् शिष्टमण्डल उत्तरप्रदेशस्य उत्तराखण्डस्य पंजाबस्य महाराष्ट्रस्य कर्णाटकस्य च कृषका सम्मिलिता सन्ति कृषकै सह वार्तायां इक्षुदण्डक्षेत्राय प्राशासनिक हस्तक्षेपानामुपरि कार्ये चर्चा भविष्यन्ति तोमर केन्द्रीयग्रामीण विकासमन्त्री नरेन्द्रसिंह तोमर अवदत् यत् प्राशासनिक योजना समयबद्धरीत्या प्रवर्तयेत तोमर अद्य दिशा पहल इति अवसरे सांसदै वरिष्ठ अधिकारिभिश्च सह व्यापकं विचारं कुर्वन् आसीत ग्रामीण विकासमन्त्रालयस्य सूचनानुसारेण दिशासप्ताह अस्मिन् भागे पञ्चविंशति दिनांकं यावत् आमान्यतेस्म आयश मन्त्रालयस्य सचिव वैद्य राजेश कोटिचा न्यगदत् यत् तस्य विभाग संस्कृतछात्रेभ्य आयुर्वेद औषधिं पृथक् विषयरूपेण आनेत् सज्जीकरोति अनेन औषधीनां आयुर्वेदस्य च कृषककार्याणां कृते संस्कृतभाषायां बहुवर्षपूर्व परिज्ञातुं सहयोग भविष्यति यै छात्रै द्वादश कक्षायां संस्कृत उत्तीर्णा तै छात्रै आयुर्व विषयरूप प्राप्तुं शक्यता श्रीकोटि विगतदिवस लोवा रिक्बा कार्यक्रमस्य एकदिवसीय कार्यशालायां भागं गृहीतवान् केन्द्रीयमन्त्री नितिन गडकरी अवदत् यत् राजमार्ग क्षेत्रं भारतीयाधिकोषपतिभ्य बहुनाम अवसराणाम् उपलब्धिं कारयति तै एषा अवसराणां दोहनं कुर्यात। परिवहन राजमार्गमन्त्री अद्य मुम्बय्यां देशस्य शीर्षस्थ अधिकोषपतिभि सह मेलनं करिष्यति नीति नीति अद्य नवदिल्ल्यां महत्वाकांक्षी जनपद प्रथमं विकासक्रमं प्रसारयिष्यति विकासक्रमस्य निर्धारणम् अस्य वर्षस्य एकत्रिंशत् मार्चत एकत्रिंशत् मई मासपर्यन्तं जनपदै ही प्रगते निर्धारणेन भविष्यति